अथ सप्तदशोऽध्यायः अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः तेषाम् निष्ठातु तु का कृष्णा स रजस्तमः श्रीभगवान् उवाच त्रिविधा भवति श्रद्धा देवीनाम् स स्वभाव च सात्विकी राजसी चैव तामसी चेति ताम् शृणो सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारता, श्रद्धामयोऽयम् पुरुषो यो यच्छः स एव सदा जन्ते देवान ज सात्वान्ेता प्रेतान भूतगणां काम यजन्ते जान अशस्त्रविहितम् घोरम् तप्यन्ते एतपोजनाः दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः कर्षयन्तः शरीरस्थम् भूतग्रामम् अचेत सदा माम् चैवान्तः शरीरस्थम् ताम् विद्धि आसुरनिश्चया कालस्त्वपि सर्वस्य त्रिविधो भवति प्रियका यज्ञः तपः तथा दानम् तेषाम् भेदमिमम् शृणु सत्त्वबलारोग्य सुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्विकप्रिया कट्वम् ललवणात्युष्ण तीक्ष्णरूपक्षविदाखिनः आकारा राजसस्येष्टाः दुःखशोकामयप्रदा ोषितम् च यत् उच्छिष्टमपि चामेध्यम् भोजनम् तामसप्रियम् युज्यते यष्टव्यमेवेति मनघ समाधायस सात्विक जीवयत् इज्यते भरतश्रेष्ठत् मन्त्रकीरम् अदक्षिणम् श्रद्धाविरहितम् यज्ञम् कामसम् परिचक्षते ेवत्रिज गुरुप्राज्ञपूजनम् शौचम् शौचं ब्रह्मचर्यम् अहिंसा अहिंसाच शारीरम् तप वेगकरम् वाक्यम् सत्यम् प्रियचितम् च यत् श्रद्धया परया तप्तम् तपः तत्त्रिविधम् नरै अपराकाक्षिभिः युक्तैः सात्विकं परिचक्षते झाघेण आत्मनो यत्पीडया क्रियते तपघ परस्योत्साद उपकारिणे देशे काले च पात्रे च तद्दानम् सात्विकम् स्मृतम् tadanam rajasam smrutam adeshaka am avyatam taddavasam udazitam om tadsaditi nirdesha ब्रह्मणस्त्रिविधस्पृतका ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा तस्मादोमित्युदाकृत्य यज्ञदानतपक्रिया प्रवर्तन्ते विधानोक्ताः सततम् ब्रह्मवादिना सन्धाय फलम् यज्ञतपक्रियाः दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः सदी एतुज्य प्रशस्ते कर्मी तथा सच्छा पाथ युज्यपने स्थित Satsang with Mooji श्रद्धया उतम् दत्तम् तपः तप्तम् कृतम् च यत् असदित्युच्यते पार्थ न च तत्प्रेत्य नो ओम् तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायका